द्वाविंशः सर्गः एवमाधर्शितः शूरः शूर्पणख्याकरस्ततः उवाच रक्षसाम् मध्ये खरः खरतरम् वचः तवापमानप्रभवः क्रोधोऽयमतुलो मम न शक्यते धारयितुम् लवणाम्भ इवोल्बणम् न रामङ्गणये वीर्यान्मानुषम् क्षीणजीवितम् आत्मदुश्चरितैः प्राणान् हतो योद्य विमोक्ष्यते बाष्पः सन्धार्यतामेष सम्भ्रमश्च विमुच्यता अहम् रामम् सह भ्रात्रा नयामि यमसादनम् परश्वधः तस्याद्य मन्द प्राणस्य भूतले रामस्य रुधिरम् रक्तमुष्णम् पास्यसि राक्षसी सम्प्रहृष्टावच श्रुत्वा खरस्य वदनाच्युतम् प्रशशंस पुनर्मौर्ख्याद्भ्रातरम् रक्षसाम् वरम् तया परुषितः पुनरेव प्रशंसितः अब्रवीद्दूषणम् नाम खरः सेनापतिम् तदा चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् रक्षसाम् भीमवेगानाम् समरेष्वनिवर्तिनाम् नीलजीमूतवर्णानाम् लोकहिंसाविहारिणाम् सर्वोद्योगमुदीर्णानाम् रक्षसाम् सौम्यकारया उपस्थापय मे क्षिप्रम् रथम् सौम्यधनुंषि च क्षरांश्च चित्राम् खड्गांश्च शक्तीश्च विविधाश्रिताः अग्रे निर्यातुमिच्छामि पौलस्त्यानाम् महात्मनाम् वधार्थम् दुर्विनीतस्य रामस्य रणकोविद इति तस्य ब्रुवाणस्य सूर्यवर्णम् सदश्वैः शबलैर्युक्तमा च चक्षेथ दूषणः तम् मेरुशिखराकारम् तप्त काञ्चनभूषणम् हेमचक्रमसम्बाधम् वैदूर्यमयकूबरम् मत्स्यैः पुष्पैर्द्रुमैश्चैलैश्चन्द्रसूर्यैश्च सदश्व युक्तम् सोमर्षा दारुरोह खरस्तदा खरस्तु तन्महत् सैन्यम् रथ चर्मायुध्वजम् निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्व राक्षसान् ततस्तद्राक्षसम् सैन्यम् घोरचर्मायुध्वजम् निर्जगामजनस्थानान् महानादम् महाजवम् उद्गरैः पट्टिषैः शूलैः सुतीक्ष्णैश्च परश्वधैः खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः गदासि मुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः राक्षसानाम् सुघोराणाम् सहस्राणि चतुर्दश जनस्थानात् खरचित्तानुवर्तिना तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान् खरस्याथ रथः किञ्चित् जगाम तदनन्तरम् ततस्ताञ्छबला नश्वाम्स्तकाञ्चन भूषितान् खरस्य मतमाज्ञायसारथिः पर्यचोदयत् सञ्चोदितो रथः शीघ्रम् खरस्य रिपुघातिनः शब्देनापूरयामास दिशः प्रवृद्धमन्यस्तु खरः खरः स्वरोरिपोर्वदार्थम् त्वरितो यथान्तकः अचोचुदत्सारथिमुन्नदन् पुनर्महाबलो मेघ इवाश्मवर्षवान् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे द्वाविंशः